हरि ओम् जयीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमापुराणे प्रथमस्कन्धे अष्टादशोऽध्यायः श्रुत उवाच श्रुत्वा तम् आगतं राजमन्त्रिभिः सहितशुचि पुरःपुरोहितम् गुरु कृत्वा गुरुपुत्रम् तमभ्यगात् कृत्वा हणान् नृपः सम्यक् पप्रच्छ कुशलाङ्गां च विनिवेद्य पयस्विनीम् सचताम् नृपपूजाम्बै प्रत्यगृह्णाद्य गृह्णाद्यथाविधि पप्रच्छलं राज्ञे स्वं निवेद्य निरामयम् कृत्वा कुशलसम्प्रश्नम् उपविष्टम् सुखासने शुकं व्यास सुतं पर्यपृच्छत वा किन्निमित्तम् हा भाग निःसृहस्य माम् प्रति जातम् ह्यागम नूहि कार्यम् दन्मनि सत्तमःवाच वासेनोक्तम् महाराज कुरुधारेषामाश्रमाणाम् च गृहस्थाश्रमोत्तमः मया नाङ्गीकृतम् वाक्यम् मत्वा बन्धम् गुरोपि न बन्धोऽस्तीति तेनोक्तो नाहम् तत्कृतवान् पुनः संिग्धमनसम म मुन सहे उच वचनम तथ्य मिथिला शुचह या ज्योतिजनकर्तवन्मुक् नाधिपह विदेहोलोक विदिपाईज्मकन राज मायापाशय नध्य तम विभेशी कथम पुत्र वन वृत्ति पर पश्य तम् नृपशादुर्लम् त्यज मोहम् मनोगतम् कुरु उदारान् महाभागपृच्छ वा भूपतिम् च तम् सन्देहम् ते मनोदात्तम् कथयिष्यति पार्थिवः तच्छ्रुत्वा वचनम् तस्य मामेहीतर्सा सुत तम् प्राप्तोऽहम् महाराज त्वत्पुरे चेतदाज्ञया मोक्षकामोऽस्मि राजेन्द्र ब्रूहि कृत्यम् ममानघ तपस्थीथ वृजते च स्वाधायस्तीथसेवनम् ज्ञानम् वा वद राजेन्द्र मोक्षम् प्रति च कारणम् जनक उवाच विप्रेण कर्तव्यम् मोक्षमार्गाश्रितेन यत् उपनीतो वसेदादौ वेदाभ्यासाय वै गुरौ अधीत्य वेदा च गुरुदक्षिणाम् समावृत्तस्तु गार्हस्थे सदारो निवसेन्मुनिः न्यायवृत्तिसु सन्तोषी निराशी गतकर्मषः अग्निहोत्रादि कर्माणि कुर्वाणश्चत्यवा शुचिः पुत्रम् पौत्रम् समासाद्य वन परथाश्रमे वसेत् सपुषा षड् पुत्रे निवेश च सर्वान्नग्निन् यथा न्यायम् वसेत्रीश्रे श्राते शुद्ध वैराग्य संभव न्यचि वेदवाक्यम न शुका चुरीश्वी संस्कार वेद बोधिता चरिश्गृ प्रोक्ता सत्र महात्म अष्टोच मुक्ति काम से प्रोक्ता शहम आश्रमादाश्रमम् गच्छेदिति शिष्टानुशासनम् शुकोवाच उत्पन्ने हृदि वैराग्ये ज्ञानविज्ञानसम्भवे अवश्यम् एव वक्तव्यम् आश्रमेषु वनेषु वा जनक उवाच इन्द्रियाणि बलिष्ठानि न नियुक्तानि अपक्वस्यत्र कुर्वन्ति विकारान्तानैक च भोजनेच्छां सुखेच्छां च शय्येच्छामात्मजश्च च यदि भूत्वा कथम् कुर्यात् विकारे समुपस्थिते वासना वासनाजालम् न शान्तिम् अपयाति वै अत तद्गच्छमनाथाय क्रमेण च परित्यजेत् ऊर्ध्वम् सुप्तः पतत्येव न शयन पतत्यथे पिव्रज पिभ्रजो न मार्गम लाला शाखाया शनै शनै फलम या शने शने सुखे न पदगामिनी व्यंग तरसा विघ्न शंका मुदस्वी श्रा तो होती विश्रम्य सुखम याती पी मनस्थ प्रबल काम अजेय न अथ क्रमेण जेतव्यम् आश्रमान्नुक्रमेण च गृहस्थाश्रमसंस्थोऽपि शान्त सुमतिरात्मवान् न चरुष्येन्न च तवेत् लाभात् लाभे समो भवेत् विहतम् कर्म कुर्वन् त्यजन् चिन्तान्वितम् च यत् आत्मलाभेन सन्तुष्टो मुच्यते नात्र समुचय पश्याहम् राजसंस्थोऽपि जीवन्मुक्तो यथा नघ विचरामि यथा कामम् न मे किञ्चित् प्रजायते भुञ्जान् विविधान् भोगान् कुर्वन् कार्याण्यनेकच भविष्यामि यथाहं तम् तथा मुक्तो भवानघ कथ्यते खलु यद्दृश्यम् अदृश्यम् बध्यते दृश्यानि पञ्चभूतानि गुणास्तेषाम् तथा पुनः अधमागम्यो नगमानेन प्रत्यक्षो न कदाचन स कथं बध्यते ब्रह्मन् निर्विकारो निरञ्जन मनस्तु सुखदुःखानां महताम् कारणं द्विज जाते तु निर्मले ह्यस्मिन् सर्वं भवति निर्मलम् भ्रमन् सर्वेषु तीर्थेषु स्नात्वा स्नात्वा पुनः पुनः निर्मलं च मरु यावत् निरर्थकम् न देहो न च जीवात्मानेन्द्रियाणि परन्दव मनैव मनुष्याणाम् कारणम् बन्धमोक्षयोः शुद्धो मुक्तः सदैवात्मा न वै बध्येत कर्हि बन्धमोक्षो बन्धमोक्षौ तो तस्मिन् शास्त्रे प्रशाम्यति शत्रो मित्रम् उदासीनो भेदा सर्वे मनोगता एकात्मत्वे एक कथं वेद सम्भवे द्वैतदर्शनात् जीवो ब्रह्म सदैवाहम् नात्रकार्या विचारणा भेदबुद्धिश्च संसारे वर्तमाना प्रवर्तते अविद्येयम् महाभागविद्या चैतन्निवर्तनम् विद्या विद्ये च विद्ये सर्वदैव विचक्षणे विनातपम् हि छाया ज्ञायते च कथम् सुखम् अविद्यया विना तद्वत् कथम् च वेत्ति गुणागुणेषु वर्तन्ते भूतानि च तथैव च इन्द्रियाणीन्द्रियार्थेषु को दोष तत्र चात्मनः मर्यादा सर्वरक्षार्थकृता वेदेषु सर्वशः अन्यथा धर्मनाशस्यात् सौगतानाम् युवानः धर्मनाशे विनष्ट स्याद् वर्णाचारोऽतिवर्तितः अतो वेद प्रदेशेन मार्गेण गच्छताम् शुभम् शुकोवाच संदेहो वर्तते राजन् न निवर्तति मे क्वचित् भवता कथितम् यत्तत् शृण्वतो मे न राधिप वेदधर्मेषु हिंसा स्यात् अधर्म बहुराहिताय कथम् पुरो धर्मो वेदोक्तो वद भूपते प्रत्यक्षेण तनाचार सोमपादनम् न राधिप पशूनाम् हिंसनम् तद्वद्भक्षणम् सौत्रामणो तथा प्रोक्तप्रत्यक्षेण सुराग्रह द्यूतक्रीडा तथा प्रोक्तावृतानि विविधानि च श्रूयते स्म पुरा ह्यासीत् श च बिन्दुर् नृपोत्तम यज्वा धर्मपरो नित्यम् वदान्य सत्यसागर वोत्ता च धर्मसेतूनाम् शास्त्राचोत्पथगामिनाम् यज्ञा च वीता चर्मणाम् पर्वतो जातो विन्ध्या चलसमपुनः मेघाम्बुप्लावनाजाता नदी चर्मण्वती शु वा सोपी राजा दिवम् यात कीर्तिरस्याचला भुवि एवम् धर्मेषु वेदेषु न मे प्रवर्तते त्रिसङ्गेन सदा भोगे सुखम् प्राप्नोति मानवः अलाभे दुःखमत्यन्तम् जीवन्मुक्तः कथम् भवेत् जनक उवाच हिंसायज्ञे च प्रत्यक्षा सा हिंसा परिकीर्तिता उपाधियोगतो हिंसा नान्यथेति विनिर्णय यथा चेन्धनसंयोगात् अविनो धूम प्रवर्तते तद्योगा तथा तस्मिन् निर्धूमत्वम् विभाति वै अहिंसा च तथा विद्धि वेदोक्ता मुनिसत्तम रागिणाम् सापि हिंसैव निद्राणाम् न अरागेण च यत्कर्म तथाहङ्कारवर्जितम् अकृतम् वेदविद्वांस प्रवदन्ती मनीषिणः गृहस्थानाम् तु हिंसैव या यज्ञे द्विशततमा च यत्कर्म तथाहङ्कारवर्जितम् स्वहिंसैव महाभाग ममुक्षूणाम् जितात्मनाम् इति देवी भागवते मापुराणे अष्टादशसाव्याम् सञ्जितायाम् प्रथमस्कन्धे शुकाय जनकोपदेशवर्णनम् नामाष्टदशोध्याय श्रीजगदम्बिकायार्पणमस्तु